नवमोऽध्यायः चिकागोन्नगरे त्यक्त्वा नौकाशयं पोतु यानमारभताण्डवे नानाविकारसहितं स्वामीतीरं व्यलोकयत। श्रीरामकृष्णदेवस्य मातृदेव्या तथाविधम् चतुर्थ्यानां च सर्वेषां स्मरणं सोऽकरोत् तदा बहूनि पुण्यस्थानानि बहवः श्रेष्ठमानुषा नैकनिस्वजनाश्चापि स्मृतौ तस्य समागता तथापि सत्वरं स्वावि नवीनावस्थया सह मिश्रितसनप्रयाणस्य कौतुकं सम्यग्न्वभूत् लङ्का चीना च जापान् इति देशान् विलोकयन् अमेरिकां स आयात् शिकागोपुरमन्ततः विज्ञानेन च यत्नेन सहकारितया तथा प्राप्तं तत्रत्यमैश्वर्यं दृष्ट्वा स बहुविस्मितः अन्वेषणं कृतं तेन धर्मसम्मेलनं प्रति मासानन्तरमेवस्या सभा चेति विभेदसः न केवलम् इदं कोऽपि समाजकर्तुमर्हति नियोजनं तस्य भक्तुं धर्मसम्मेलनेह्यपि चिकागोनगरे मासु एकं कुत्र वसेत् तथा नियोजनमुपर्युक्तं तस्यार्थे को विधास्यते सर्वमेतत्तु राज्ञा वा स्वामिभक्तैन चिन्तितं निर्वहेत सकलं तस्य चारित्रम् इत्येव चिन्तितम् आनीतं यद्धनं तेन न्यूनीभूतं क्रमेण तत् आवश्यकं बहुद्रव्यं चिकागो जीवनायतो अतः स गतवान् बोष्टञ्चेति नामान्यपत्तनम् रेलयाने कदाचित् सधनिकव्याप्तपरिचयपरिचय नैकमुख्यजनास्तत्र तस्या साहाय्यहेतुना स्वामी परिचिनो शीघ्रम् एतस्मिन् मुख्यपत्तने विश्वविद्यालयं हार्वाजिति ख्यातं यदागतः प्राध्यापकेन रैत् भवत। स्वामी परिचितोऽभवत् स्वामिनो ज्ञानसम्पत्त्या समाकृष्टो बभूवत् प्रोक्तवान् सति वाक्यै समित्राणि स्वामिनं प्रति प्रशंसन् स्वामिनं धर्मं धर्म मेलनस्याधिकारिणै पत्रं लिखितवान् चापि रेष्टव्योष्ठचेतसा रेल्यानेन यदा स्वामी चिकागोनगरं गतः नष्टो हा पत्रसङ्केतो मेलनस्याधिकारिणः बहून् स तत्र पप्रच्छमेलनस्य स्थलं प्रति विदेशीयोगिनं किन्तु साहाय्यं कोऽपि नाददा भक्षणं याचमानसन्नागेहानि यातवान् धार्म्यमाष्टचरितं हन्तसेवकैस्तत्र तं प्रति मार्गप्रार्थे यदात्यन्तं क्लान्तो भूत्वा स आशितः सम्मुखस्थस्य गेहस्य नायिका तं निरैक्षत अस्ति प्रतिनिधिः किं वा धर्मसम्मेलने भवान् स्वकीयक्लिष्टतां स्वामी महिलां तां नवेदयद् श्रीमती हेल इति ख्यात स्वामिनं सा निजगेहं समानयत् स्नानभक्षादिकार्याणां संविदा प्रथमं कृता नीतसधर्ममेलायाः कार्यालयमनन्तरं सभाध्यक्षेन तद्वारा जातः परिचितस्तथा अन्ते प्रतिनिधित्वेन स्वामी तु स्वीकृतोऽभवत् सममेव कृतास्तस्य वासस्य परिपाट्यपि एवमीश्वरकारुण्यं ररक्ष स्वामिनं पुनः दैवते तस्य विश्वास एतेन प्रबलीकृतः श्रीमती हेल् तथा तस्या हृदो स्वामिनो जाता सम्पूर्णे तस्य जीवने